सर्गः पुरा राम महाबाहो महाबलपराक्रमम् रूपमासीन्ममाचिन्त्यम् त्रिषु लोकेषु विश्रुतम् यथा सूर्यस्य सोमस्य ततः स्थूलशिरा नाम महर्षिः कोऽपितो मया सचिन्वन्विविधम् वन्यम् रूपेणानेन धर्शितः तेनाहमुक्तः प्रेक्ष्यैवम् घोरशापाभिधायिना एतदेवम् नृशंसन्ते रूपमस्तु विगर्हितम् समयायाचितः क्रुद्धः शापस्यान्तो भवेदिति अभिशापकृतस्येति तेनेदम् भाषितम् वचः यदा छित्त्वा भुजो रामस्त्वा दहे द्विजने वने तदा त्वम् प्राप्स्यसे रूपम् स्वमेव विपुलम् शुभम् श्रिया विराजितम् पुत्रम् धनोऽस्त्वम् विद्धि लक्ष्मण इन्द्रकोपादितम् रूपम् प्राप्तमेवम् मृणाजिरे अहम् हि तव सोऽग्रेण पितामहमतोषयम् दीर्घमायुः समे प्रादात्ततो माम् विभ्रमोऽस्पृशत् दीर्घमायुर्मया प्राप्तम् किम् माम् शक्रः करिष्यति इत्येवम् बुद्धिमास्थाय रणेशक्रमधर्षयम् तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा सखिनी च शिरश्चैव शरीरे सम्प्रवेशितम् समयायाच्यमानः सन्मानयद्यमसाधनम् पितामहवचः सत्यम् तदस्वितिममाब्रवीत् अनाहारः कथम् शक्तो भग्रसक्तिशिरोमुखः वज्रेणाभिहतः कालम् सुदीर्घमपि जीवितुम् स एवमुक्तः शक्रो मे बाहूयोजनमायतौ तदा चास्यम् च मे कोक्षौ तीक्ष्णदं श्रमकल्पयत् सोऽहम्भुजाभ्याम् दीर्घाभ्याम् सङ्क्षिप्यास्मिन् वनेचरान् सिंहद्वीपि मृगव्याघ्रान् भक्षयामि समम् ततः स तु मामब्रवीदिन्द्रो यदा रामः स लक्ष्मणः छेत्स्यते समरे बाहू तदा स्वर्गम् गमिष्यसि अनेन वपुषा तात वनेऽस्मिन्राजसत्तमा सर्वस्य ग्रहणम् साधुरोचये अवश्यं ग्रहणम् रामो मन्येहं इमाम् बुद्धिम् पुरस्कृत्य स त्वम् रामोऽसि भद्रम् तेनाहमन्येन राघव शक्यो हन्तुम् यथा तत्त्वमेवमुक्तम् महर्षिणा अहम् हिमति साचिव्यम् करिष्यामि नरर्षभा मित्रम् चैवोपदेक्ष्यामि युवाभ्याम् संस्कृतोऽग्निना एवमुक्तस्तु धर्मात्मादनुना तेन राघवः इदम् जगादवचनम् लक्ष्मणस्य च पश्यतः रावणेन हृता भार्या सीता मम यशस्विनी निष्क्रान्तस्य जनस्थानात् सह यथा सुखम् नाम तु जानामि न रक्षसः निवासम् वा प्रभावम् वा वयम् तस्य न विद्महे शोकार्तानामनाथानामेवम् विपरिधावता कारुण्यम् सदृशम् कर्तुमुपकारेण वर्तत काष्ठान्यानीय भग्नानि काले शुष्काणि कुञ्जरैः धक्ष्यामस्त्वाम् वयम् वीरश्वभ्रे महति कल्पते सीताम् समाचक्ष्मयेन वा यत्र वाहृता यदि जानासि तत्त्वतः एवमुक्तस्तु रामेण वाक्यम् दिव्यमस्ति न मे ज्ञानम् नाभिजानामि मैथिली यस्ताम् वक्ष्यति तम् वक्ष्ये दग्धः स्वं रूपमास्थितः योऽभिजानाति तद्वक्षस्तद्वक्ष्ये राम तत्परम् अदग्धस्य हि विज्ञातुम् शक्तिरस्ति न प्रभो राक्षसन्तु महावीर्यम् सीता हृता तव विज्ञानम् हि महद्भ्रष्टम् शापदोषेण राघव स्वकृतेन मया प्राप्तम् रूपम् लोकविगर्हितम् किन्तु यावन्न यात्यस्तम् सविता श्रान्तवाहनः तावन्मामवटे क्षिप्त्वा दह राम दना वक्ष्यामितम् महावीरयस्तम् वेत्स्यति तेन सख्यम् च कर्तव्यम् न्याय्यवृत्तेन राघव कल्पयिष्यति ते वीरसाहाय्यम् लघुविक्रम न हि तस्यास्य राघव सर्वान् परिवृतो लोकान् पुरावै कारणां तरे, इत्यादे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकसप्ततितमः सर्गः